श्रीहरये नमः अत एकविंशोऽध्यायः मैत्रेय उवाच मौक्तिकैकुसुमस्रग्भेर्दुकुलैः स्वर्णतोरणैः महासुरभिभिर्धूपैर्मण्डितं तत्र, तत्र तत्र वै सन्तनाघुरुतो याद्र रत्या चत्वरमार्गवद् पुष्पाक्षतपलैस्तोभ्यै लाजैरर्चिर्भिरर्चितं सौवृन्दैः कदलीस्तम्भै भूकभूतैः संस्कृतं तरुपल्लवमालाभि सर्पतः समलङ्कृतम् जास्तम् दीपबलिभिः सम्भृदा शेषमङ्गलैः अभीयोर्मृष्टकन्याश्च मृष्टकुकुण्डलमण्डिताः शङ्कधुन्दुबिघोषेण ब्रह्मघोषेण सर्द्विजां विभेसभवनं वीर स्तूयमानो गतस्मयः पूजितः पूजयामास तत्र तत्र महायसाः पौराञ्जानपधान्तान् तान् प्रीतः प्रियवरप्रदः स एवमादिनि अनवद्य चेष्टितकर्माणि भूयांसि महोन्महत्तमः कुर्वन् ससा अवनिमण्डलं यशस्पीतं निधाय रुरुहे परमपदं तु धादिराजस्य यशो विजृम्बितं गुणैरशेषेर्गुणवत्सभाजितम् शक्तामहाभागवतत्सधस्पते कौशारभिम्प्राह गृह्णन्तमर्चयन् विदुर उवाच सोऽभिषिक्त लब्धा शेषसुरार्हणः बिभ्रत् स तेजो भाह्वोर्याभ्यां दुदोह कोन्वस्य कीर्तिं न शृणोत्यभिज्ञो यत् विक्रमोच्चिष्टमशेषभूपाः लोका सपाला उपजीवन्ति काम मध्यापि तन्मे मैत्रेयौ वाच गङ्गायमुनयोर्नत्योरन्तरा क्षेत्रमावसन् आरब्धानेव बुभुजे भोगान् पुण्यजिहासया सब्धद्वीपै दण्डदृक् अन्यत्र ब्राह्मणकुलात् अन्यत्राच्युतत् गोत्तरः ये कदा सीन्मखा तत्र दिवौकसाम् सामजो ब्रह्मर्षीणां चराजर्षीणां च सत्तमा तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः उत्थितः मध्ये ताराणाम् उडुराडिव प्रांसुः पीनायतभुजो कौरकञ्जारुणे शणः सूनासत् सुमुखः सौम्य आवर्तनापि रोजस्वी काञ्चनोरुधप्रपादे सूक्ष्मवक्रासि तस्मिग्धमूर्धजकम्बुकन्धरः महाधने दुकूलार्घ्रे परिधायोपवीय व्यञ्जिदाशेषकात्र श्रीर्नियमे न्यस्तभूषणः कृष्णाजिनधर श्रीमान् कुशपाणिकृतोचितः सिशिस्रस्निग्धाराक्ष समैक्षतसमन्ततः उचिवानितमुर्वीश सधः चारुचित्रपदं श्लक्ष्णं मृष्टं गूढम् अविक्लवं सर्वेषाम् उपकारार्थं तथा अनुवदन्निव राजोवच सभ्याशृणुत भद्रम्ब साधवो य इहा गताः सत्सु जिज्ञासुभिर्धर्म वेद्यं स्वमनीक्षितं अहं दण्डधरो राजा प्रजानामिह योजितः रक्षिता वृद्धितस्वेषु सेतुषु स्थापिता पृथक् तस्य मे धनुष्ठनात् यानाहोर्ब्रह्मवादिनः लोकास्युक् कामसन्दोहा यस्यतुष्यति दुष्टदृद्धरे त्वरं राजा प्रजाधर्मेश्व शिक्षयन् प्रजानां समलं भुङ्क्ते भगं जगाति सः तत्प्रजाभर्द्रुपिण्डार्थं स्वार्थमेवानसूयवः कुरुदा दोष जदीयस्त अनुग्रहकृतः यूयं तदनुमोधत्वम् पितृदेवर्षयो मलाः कर्तुः सास्तु अनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् अस्ति यज्ञपतिर्नाम केषाञ्चित् अर्हसत्तमाः इहात्र च लक्ष्यन्ते ज्योत्स्नोवत्यः क्वचित् भुवः मनोरुत्तानबाधस्य ध्रुवस्यापि प्रियव्रतस्य राजर्षे अङ्गस्यास्मत् पितुः पितुः ईदृशानां मथान्येषाम् अजस्य च भवस्य च प्रह्लादस्य बलेश्चापि कृत्यमस्ति गताभृता दौहित्राधीनृते मृत्यो शोच्या धर्मविमोहितान् वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना यत्पादसेवाभिसृचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः सत्यक्षिणोत्यन्वह मे असङ्गविज्ञानविशेषवीर्यवान् यदङ्घ्रिमूले कृतकेतनः पुन न संसृतिं क्लेशवकां प्रबध्यते तमेव यूयं भजतात्मवृद्धिभिर्मनोपचकाय गुणैस्वकर्मभिरमायिनः कामदुघाङ्घ्रिपङ्कजं यधातिकारावसितार्थसिद्धयः असा विहानेकगुणो गुणोध्वरम् पृथक् विधत्रव्यगुणक्रियोक्तिभिः सम्पद्यतेऽर्ताशाय लिङ्गनामभि विशुद्धविज्ञानगणस्वरूपतः प्रधानकालाशयधर्मसङ्ग्रहे सशिर एष प्रतिपद्य चेतनं क्रियाफलत्वेन विभुर्विभाव्यते यथा न लो धारुषु धद्गुणात्मकः अहो ममामि वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरं स्वधर्मयोगेन यजन्ति मामका निरन्तरं शोणितले दृढव्रताः मा जातु ते जः प्रभवेन्महर्दिभिः तितिक्षया तपसा विद्यया च ते दीव्यमाने जिददेवतानां कुले स्वयं राजकुलाद्विजानां नित्यं हरिर्यच्चरणाभिवन्दतात् अपावलक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीय यत्सेवया शेषगुहासयः स्वराट् विप्रियस्तुष्यति काममीश्वरः तदेव तद्धर्मपरैर्विनीते सर्वात्मना ब्रह्मकुलं निषेव्यताम् पुमान् लभेतानदिवेलमात्मनः प्रसीदोऽत्यन्त समं स्वतः स्वयम् यन्नित्यसम्भन्त निवेशया ततः परं किमत्रास्ति मुखं कविर्भुजान् अस्नात्यनन्त खलु तत्र गोविधैर् श्रद्धाहुतं यन्मुखयिज्जनामभिः न वैतथा हुतासने पारमहंस्य पर्यगुः यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धा तपो मङ्गलमौन संयमैः समादिनाभिप्रतिहार्दृष्टये यत्रेधमादर्शयिवावभासते तेषामहं पादसरोजरेणम् आर्यावहेयाधिकिरीटमायुः यन्नित्यधा बिभ्रत आसु पापं आसुपापं नश्यत्यमं गुना भजन्ति गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयम् ृणते नु सम्बधः प्रसीदनां ब्रह्मकुलं गवां च जनार्दनसानुसरश्च मह्यम् मैत्रेय उवाच इति ब्रुवाणं पितृदेवद्विजातयः तुष्टुवुरुहृष्टमनस साधुबादेन साधव पुत्रेण जयते लोकाने सत्यवती श्रुति ब्रह्मदण्डः ततः पापो यत्त्वेनोद्यतरत्तमः हिरण्यकशिभुश्चापि भगवन्निन्दया तमः विविशुरद्यगात्सूनोः प्रह्लादस्यानुभावतः वीरवर्यपितः पृथ्व्या समाक् भक्ते सर्वलोकैकभर्तरि अहो वयं हद्य पवित्र कीर्ते त्वयैव नाथेन मुघुन्तनाथाः यवुत्तमश्लोकतमस्य विष्णो ब्रह्मण्यदेवस्य कथां व्यनक्तिं नाद्यद्भुतमितं नाथ तवां जीव्यानुशासनं प्रजानुराघो महतां प्रकृतिः करुणात्मन प्रभो भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैव संगितैः नभो विवृद्ध सत्त्वाय पुरुषाय महीयसे यो ब्रह्मक्षत्रमाविश्य बिभर्ति धं स्वतेजसा इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे एकविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिके जय